षष्टितमः सर्गः वृषमाव्रजमानस्य तस्याधोवामलोचनम् प्रास्फुरच्चास्खलद्रामो वेपथुश्चास्य जायते उपालक्ष्यनिमित्तानि सोऽशुभानि मुहुर्मुहुः अपि तु सीताया इति वैव्याजहारः त्वरमानो जगामाथ सीता शून्यमापसथम् दृष्ट्वा बभूवोद्विग्नमानसः उद्भ्रमन्निव वेगेन विक्षिपन् रघुनन्दनः तत्र तत्रोदजस्थानमभिवीक्ष्य समन्ततः ददर्शपर्णशालाम् च सीतयारहिताम् तदा श्रिया विरहिताम् ध्वस्ताम् हेमन्ते पद्मिनीमिव रुदन्तमिव वृक्षैश्च ग्लानपुष्पमृगद्विजम् श्रिया विहीनम् विध्वस्तम् सन्त्यक्तम् वनदैवतैः विप्रकीर्णाजिनकुशम् विप्रविद्धभृसीकटम् दृष्ट्वा शून्योऽ च स्थानम् विललाप पुनः पुनः हृतामृता वा नष्टा वा भक्षिता वा भविष्यति निलीनाप्यथवा भीरुरथ वा भीरु वनमाश्रिता गता पुष्पाणि फलान्यपि च पुनः अथ वा पद्मिनीम् याता जलार्थम् वा नदीम् गता यत्नान् मृगयमाणस्तु नाससादवने प्रिया शोकरक्ते क्षणश्रीमानुन्मत्त इव लक्ष्यते वृक्षाद्वृक्षम् प्रधावन्स गिरींश्चापि नदीनदम् बभ्रामविलपन् रामः शोकपङ्कार्णवप्लुतः अस्ति कच्चित्त्वया दृष्टा सा कदम्ब प्रिया प्रिया कदम्ब यदि जानीषे शंससीताम् शुभाननाम् स्निग्धपल्लव सङ्काशाम् पीतकौशेयवासिनीम् शंसस्व यदि सा दृष्टा बिल्व बिल्वोपमस्तनी अथवा अर्जुन शंसत्वम् प्रियाम् तामर्जुन प्रियाम् जनकस्य सुतातन्वी यदि जीवति वा न वा ककुभः ककुघोरुम् ताम् व्यक्तम् जानाति मैथिलीम् प्रतापल्लवपुष्पाढ्यो भाति ह्येष वनस्पतिः भ्रमरैरुपगीतश्च यथा द्रुमवरोह्यसि एष व्यक्तम् विजानाति तिलकस्तिलकप्रिया अशोकशोकापनुदशोकोपहतचेतनम् त्वन्नामानम् कुरु क्षिप्रम् प्रिया सन्दर्शने न माम् दृष्टा पक्वतालोपमस्तनी कथयस्ववरारोहाम् कारुण्यम् यदि ते यदि दृष्टा त्वया जम्बोजाम्बो नदसमप्रभा प्रियाम यदि विजानासि निःशङ्कथयस्व कथयस्वमे अहोत्वं त्वम् कर्णिकाराद्यपुष्पितः शोभसे भृशम् कर्णिकारप्रियाम् साध्वीम् शंसदृष्टा यदि प्रिया चूतनीपमहासालान्पनसान् कुरवान्धवान् दाडिमानपितान् गत्वा दृष्ट्वा रामो महायशाः बकुला नत पुन्नागाम् सन्दनान् केतकांस्तथा पृच्छन् रामो वनेभ्रान्त उन्मत्त इव अथवा मृगशावाक्षीम् मृगजानासि मैथिलीम् मृगविप्रेक्षणीकान्ता मृगीभिः सहिता भवेत् गजसा गज ताम् मन्ये विदिताम् तुभ्यमाख्याहि वरवारणा शार्दूलयदि सा दृष्टा मैथिली मम विश्रब्धः कथयस्वनते भयम् किम् धावसि प्रियेणूनम् दृष्टा सि कमले क्षणे वृक्षैराच्छाद्य चात्मानम् किम् मान्न प्रतिभाषसे तिष्ठतिष्ठवरारोहेण तेऽस्ति ना्यर्थ हास् शीला किमुपेक्षसे पीतकौशेय सूचिता वरवर्णिनी धा मै दृष्टा ठयस्ति सौहृद् नाव सा नूनमथवा हिंसीता चारुहा यथोपेक्षिर्कम सा भक्षिताक्षसै पिशिता शनै विभज्याङ्गानि सर्वाणि मया विरहिता प्रिया नूनम् तच्छुभदन्तोष्ठम् सुनासं शुभकुण्डलम् पूर्णचन्द्रनिभम् ग्रस्तम् मुखम् निष्प्रभताम् गतम् सा कोमला विलपन्त्यास्तु कान्ताया भक्षिता शुभा नूनम् विक्षिप्यमाणौ तौ बाहू पल्लव भक्षितौ वेपमानाग्रौ सहस्ता भरणाम् गदौ मया विरहिता बाला रक्षसाम् भक्षणाय वै सार्थेनेव परित्यक्ता भक्षिता बहुबान्धवा हा लक्ष्मणमहाबाहो पश्यसे त्वम् प्रियाम् हा प्रिये क्व भद्रे हासीतेति पुनः पुनः इत्येवम् विलपन् रामः क्वचिदुद्भ्रमते वेगात् क्वचिद् विभ्रमते बलात् क्वचिन्मत्त इवाभाति कान्तान्वेषणतत्परः सवनानि नदी शैलान् गिरे प्रस्रवणानि च काननानि च वेगेन भ्रमत्यपरि संस्थितः तदा स गत्वा विपुलम् महद्वनम् परीत्य सर्वम् त्वथ मैथिलीम् प्रति अनिष्ठिताशस्स्रचकारमार्गणे पुनः प्रियायाः परमम् परिश्रमम् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये अरण्यकाण्डे षष्टितमः